श्रीहरये नमः अथ चतुर्थोऽध्यायः श्रीशुक उवाच बहिरन्तः पुरत्वारः सर्पा पूर्व आवृताः ततो बालध्वनिं श्रुत्वा गृहपाला देवज्ञा गर्भजन्म तद् आसत्युर्भोजराजाय यदुद्विग्नप्रतीक्षिते सतल्पातूर्णमुत्ताय कालोऽयमिति विह्वलहा सुदीर्हमहातूर्णं प्रस्खलन्मुक्तमूर्धजहान् तमाह भ्रातरं देवी कृपणा करुणं सती स्नुषेयं तव कल्याणस्त्रियं माहं त्वमर्हसि भगवो हिंसिता भ्रात सिसवः पावकोपमाः त्वया दैव पुत्रिकैका प्रदीयतां नन्दहं ते ह्यवरजाद् दीनाहतसुता प्रभो धातुमर्हसि मन्दाया अङ्गे मां चरमां प्रजां श्रीशुक उवाचा उपगुह्यात्मजामेवं रुदध्या दीन दीनवद् याचितस्तां हस्तात् आचिदे कलः तां ग्रीत्वा शरणयोर्जातमात्रां सुवसुसुताम् अपोतयश्चिला पृष्ठे स्वार्थोन्मूलितसौहृदः हस्तात सा हस्तात् समुत्पत्य सद्यो देव्यम्भरं गता अदृश्यतानुजा विष्णो सायुधाष्टमहाभुज दिव्यश्रगम्भरालेपरत्नाभरणभूषितान् धनुश्लेषु चर्मासि शङ्खचक्रगधाधरान् सिद्धचारणगन्धर्वैर् अप्सर किन्नरुरोरगैः उपाहृतोरुभलिभिस्तूयमानेधमब्रवीत् किं मया कथया मन्दजातः यत्र क्व वा पूर्वशत्रुर्माहिंसी कृपणान्वृता इति प्रभाष्य देवी माया भगवती भुवि बहुनामनिकेतेशो भगुना बभूवः तयाभिहितं माकर्ण्यकं सः परमविस्मितः देवकीं वासुदेवं च विमुच्य प्रसृतो ब्रवीत् अहो बहिन्यहोभाममया वां भत पात्मना पुरुषादयि वा पत्यं भगवो सत्वहं सुताकान् स त्वहं त्यक्तकारुण्यतक्तज्ञातिसुहृत्कलः कान् लोकान् वै गमिष्यामि ब्रह्मदेवमृतस्वसन् दैवमप्यन्रतं भक्तिनमर्तया एव केवलम् यद्विश्रं भातहं पापस्वसुर्निगतवान् शिशोन् जन्तवो न सधैकत्र दैवादीनास्तधा सते भुवि भौमानि च नायमात्मा तथैतेषु विपर्येति यथै भोः भेतो यथा तेहयोगवियाघौ च संस्मृतिर्न निवर्तते तस्माद् भद्रे आत्मानं मन्यते स्वद्रे तावत्तदभिमानिज्ञो बाद्यभात क्षमत्वं मम धौरात्म्यं साधवो दीनवत्सलाहा इत्युक्त्वा अश्रुमुखपाधौ श्यालस्वस्रो अध गृहीत मोचयामासनिगढाद्विश्रब्धकन्यकागिरा देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् भ्रातुः समनुतत्यस्य शान्त्वा रोषं देवकी व्यसृजत्वसुदेवस्य ब्रह्मप्रकश्यतमुवाचः एवमेतन्महाभाग यथावदसि देहिना अज्ञानप्रपवा स्वपरेति स्वपरेतिभितायतः शोककर्षभयद्वेषलोभमोगमधान्विताः मिदोग्नं दं तपश्यन्ति भावैर्भावं पृथग्दृशः श्रीशुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः देवकी वसुदेवाभ्यामनुज्ञातो विशद्गृहं तस्यां रात्र्यां व्यतीतायां तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्रया आकर्ण्य भर्दोर्गति तं त्वमुचोर्देवसत्रवहान् देवान् प्रतिकृतामर्षा दयितेयो नातिको विधाः एवं चेत्तर्हि भोजेन्द्रपुरक्रामव्रजादिशु अनिर्दशान् निर्दशांश्च हनिष्याम मोद्यवयशुषोन् किमुद्यमयी करिष्यन्ति देवा समरभीरवः नित्यमुद्विग्नमनसो जो घोषे धनुषस्तवा अस्य तस्त्ये श्रव्रातेर्हन्यमाना समन्ततः जी जीविषभुत्सृज पलायनपरायुः केचित् प्राञ्जलयो दीनान्यस्तशस्त्रादि वौकसः मुक्तकच्चशिका केचिद्भीतास्मय इति वादिनः न त्वं विश्रुम्रतश्रास्त्रान् हंस्यन्याशक्तविमुखान् भग्नचापान् अयुध्यतः किं क्षेमसूरैर्विभुतैयसंयुगविकत्तनैह्यें प्रहोजुषा किं हरिणा शम्भुना वा किमिन्द्रेण अल्पवीर्येण ब्रह्मणा वा तपस्यता तथापि देवा सा पन्यात्मोपेक्षा इति मन्महे ततस्तन्मूलगणेन नियोङ्क्ष्वास्माननुव्रतान् यथामयोऽङ्े समुपेशितो न शक्यते रूढपतश्चिकित्सितुं यदेन्द्रियग्राम उपेक्षितस्तता रिभुर्मखान् बद्धबलो न चाल्यते मूलं हि विष्णोर्देवानां यत्र धर्मसनातनः तस्य च ब्रह्म गो विप्रास्तपो यज्ञासदक्षिणाः तस्मात् सर्वात्मा राजन् ब्राह्मणान् ब्रह्मवादिनः तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः खा विप्रागावश्च वेताश्च तपःसत्यं धमः समहान। श्रद्धा दयातिथिशाचक्रतवश्च हरेस्तनूः स हिः सर्वसुराध्यक्षो ह्य सुरद्विग्गुहाशयः तन्मूला देवता सर्वासेश्वरा स चतुर्मुखाः अयं यतृषीणा विहिंसनं श्रीशुक उवाच एवं दुर्मन्द्रिभिक्कं स सखसं मन्दर्य दुर्मतिहें ब्रह्महिंसां हितं मेने कलापासौ वृतोऽसुरखाम् सन्धिष्ठ सातु लोकस्य कदने कदनप्रियान् कामरूपान् दिक्षु धानवान् गृहमाविशत् ते वै रजप्रकृतयस्तमसा मूढचेतसा सतां विद्वेषमाचेरो आरातागतमृत्यवः आयुष्टियं हन्ति श्र्यो हन्ति श्रेयांसि सर्वाणि पुंसो महततिक्रमः इति श्रीभागवते महापुराणे दशमस्कन्दे पूर्वार्ते चतुर्दोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथ महाराज की जय